युद्धकाण्डं सर्गं सवन् श्रीमहादेव उवाच कालनेमिवच श्रुत्वा रावणो मृदसन्निभं जज्ज्वाल क्रोधतां राक्षसर्पिरद्भिरिवाग्निमद निहन्मित्वां दुरात्मानं मच्छासनपराङ्मुखं परैः किञ्चित् गृहीत्वा भाषसे राम किङ्करः कालनेमिरुवाचेदं रावणं देव किं कृथा न रोचते वचनं यदि गत्वा करोमि तद् इत्युक्त्वा प्रययौ शीघ्रं कालनेमिर्महासुरः नोदितो रावणेनैव हनूमद्विघ्नकारणात् स गत्वा किमवत्पार्श्वं तपोवनमकल्पयद तत्र शिष्यैः परिवृतो मुनिवेषधरःखलः गच्छदो मार्गमासाद्य वायुसूनोर्महात्मनः ततो गत्वा ददर्शाध हनुमानाश्रमं शुभं चिन्तयामासमनसा श्रीमान्पवनन्दनः पुराण दृष्टमे तन्मे मुनिमण्डलमुत्तमम् मार्गो विभ्रंसिदो वामे मे भ्रमो वा चित्तसम्भवः यद्वा विश्याश्रमपदं दृष्ट्वा मुनिमशेषतः पीत्वा जलं ततो यामिद्रोणाचलमनुत्तमम् इत्युक्त्वा प्रविवेशाध सर्वतो योजनायदं आश्रमं कदलीशालखर्जूरपनसादिभिः समावृतं पक्वफलैर्नम्रशाखैश्च पादपैः वैरभावविनिर्मुक्तं शुद्धं निर्मलक्षणं तस्मिन् महाश्रमे रम्ये कालनेमिस्स राक्षसः इन्द्रयोगं समास्थाय चकार शिवपूजनं हनुमानभिवाद्याः गौरवेण महासुरम् भगवन् रामदुदोहं हनुमान्नाम नामदः रामकार्येण महदाक्षीराब्धिं गन्तुमुद्यतः तृषा बाधदे ब्रह्मन्नुदगं कुत्र विद्यते यथेच्छं पातुमिच्छामि पद्यदा मे मुनीश्वर तच्छ्रुत्वा मारुदेर्वाक्यं कालने कालनेमिस्तमब्रवीद कमण्डलुगदं तोयं ममत्वं त्वं पादुमर्हसि भुङ्क्ष्वचे मानि पक्वानि फलानि तदनन्तरं निवसस्व सुखेनात्र निद्रा त्वरास्तु मा भूदं भव्यं भविष्यं च जानामि तपसा स्वयम् उद्धितो लक्ष्मणः सर्वे वानरारामवीक्षिताः तत्रुत्वा हनुमानाः खा कमण्डलु जलेन मे तृष्णा तदो दर्शय मे जलं तदेत्याज्ञापयामास वडुं मायाविकल्पितं वडोद्दर्शय विस्तीर्णं वायुसूनोर्जलाशयं निमील्य चाक्षिणीतोऽयं पीत्वा गच्छ ममान्तिकम् मन्त्रं येन द्रक्ष्यसि चौषधीः तथेदि दर्शितं शीघ्रम् वडुना सलिलाशयं प्रविश्य हनुमां स्तोयमपि बन्मीलिते क्षणः ततश्चागत्य मकरी महामायामहाकपिम् अग्रसत्तं महावेगान्मारुतिं कोररूपिणी ततो ददर्श हनुमान् ग्रसन्दीं मगरीं रुषा धारयामासहस्ताभ्यां वदनं सा ममालः ततोन्तरिक्षे ददृशे दिव्यरूपधराङ्गना ध्यानमालीति विख्याता हनुमन्दमधा ब्रवीद त्वत्प्रसादादहं शापाद्विमुक्तास्मि कपीश्वर शप् ताकं मुनिना अप्सरा कारणांदरे आश्रमे यस्तुते दृष्ठकालने महासुर रावण प्रखे विघ्न कर्म तवानक मुनिष न सौ मुर्विप्रविहिसक जहिदुष्टं गच्छ शीघ्रं द्रोणाचलमनुत्तमं गच्छाम्यहं ब्रह्मलोकं त्वत्स्पर्शाद्धतकल्मषा इत्युक्त्वा सा ययौ स्वर्गं हनुमानप्यथाश्रमम् आगतं तं समालोक्य कालनेमिरभाषद किं विलम्बेन महदा तव वानरसत्तम गृहाणमत्तो मन्त्रांस्त्वं देहि मे गुरुदक्षिणाम् इत्युक्तो हनुमान्मुष्टिं दृढं बद्ध्वाहराक्षसं गृहाणदक्षिणामेदामित्युक्त्वा निजखानतम् विसृज्य मुनिवेषं स कालनेमिर्महासुरः युयुधे वायुपुत्रेण नानामायाविधानदः महामायिकदूदोऽस्सौ हनुमान्मायिनां रिपुः जखानमुष्टिनाशीर्ष्णि भग्नमूर्धा ममारसह रसः क्षीरनिधिं गत्वा दृष्ट्वा द्रोणं महागिरिम् अदृष्ट्वा चौषधीस्तत्र गिरिमुत्पाट्य सत्वरः गृहीत्वा वायुवेगेन गत्वा रामस्य सन्निधिम् उवाच हनुमान् राममानीतोऽयं महागिरिः यद्युक्तं गुरुदेवेश विलम्बो नात्र युज्यते श्रुत्वा हनूमदोवाक्यं रामः सन्तुष्टमानसः गृहीत्वा चौषधीशीघ्रं सुषेणेन महामतिः चिकित् सां कारयामास लक्ष्मणाय महात्मने ततः सुप्तोद्धित इव बुद्ध्वा प्रोवाच लक्ष्मणः तिष्ठतिष्ठक्व गन्तासि हन्मीदानीं दशानन यदि ब्रुवन्दमालोक्य मूर्ध्न्यवख्राय राघवः मारुतिं प्राह साद्य महाकपे निरामयं प्रपश्यामि लक्ष्मणं भ्रातरं मम इत्युक्त्वा वानरैः सार्धं सुग्रीवेण समन्वितः विभीषणमदेनैव युद्धाय समवस्थितः पाशाणैः पादपैश्चैव पर्वताग्रैश्च वानराः युद्धायाभिमुखा भूत्वा ययुः सर्वे युयुत्सवः रावणो विव्यधे रामबाणैर्विद्धो महासुरः मादङ्ग इव गरुडेनेव पन्नगः अभिभूदोगमद्राजा राघवेण महात्मना सिंहासने समाविश्य राक्षसानिदमब्रवीद मानुषेणैव मे मृत्युमाह पूर्वं पितामहः मानुषो हि न मां हन्तुं शक्तोऽस्ति भुवि कश्चन ततो भून्न संशयः रामो दाशरधिर्भूत्वा मां हन्तुं समुपस्थितः अनरण्येन यत्पूर्वं शक्तोऽहं राक्षसेश्वर पत्सते च मद्वंशे परमात्मा सनातनः तेनत्वं त्वं पुत्रपौत्रैश्च बान्धवैश्च समन्वितः हनिष्यस्येन सन्देह इत्युक्त्वा माम् दिवङ्गदः स एव रामः मदर्थे मां हनिष्यति कुम्भकर्णस्तु मूढात्मा सदा निद्रावशङ्गदः तं विबोध्यमहासत्त्वमानयन्तु ममान्तिकं युत्युक्तास्ते महाकायास्तोर्णं गत्वादु यत्नदः विबोध्यकुम्भश्रवणं निन्यूरावणसन्निधिं नमस्कृत्य नमस्कृत्यस राजानमासनोपरि संस्थितः समाह रावणो राजाभ्रातरम् दीनया गिरा कुम्भकर्ण निबोधत्वं महत्कष्टमुपस्थितम् हता शूरा पुत्र पौत्राच कर्तव्यमिदानीमे मृत्युकाल उपस्थित ये शाशरधी राग्रीवस सहिद बली सम्रबलस्तीर्वा मूल नरिकृंद ये राक्षसा मुख्यतमास्ते कदा वानरैर्युधि वानराणां क्षयं युद्धे नपश्यामि पश्यामि कदाचन नाशयस्व यदर्थं परिबोधितः ब्रादुरर्थे महासत्त्व कुरु कर्मसुदुष्करम् श्रुवा तद्रवणेन्द्र से वचनम परदेद कुंभकर्ण जहासोच्चनम चेदमब्रवीत पुरा मंत्रचारे ते गृप तद्य्वापगद पूर्वमेव मया प्रोक्तो रामो नारायणः परः सीता च योगमायेति बोधितोऽपि न बुध्यसे ये, ये कदाहं वने विशालायां स्थितो निशि दृष्टो मया मुनिः साक्षान्नारदो दिव्यदर्शनः समब्रवं महाभाग कुतो गन्धासि मे वद इत्युक्तो नारदप्राह देवानां मन्द्रणे स्थितः ते वक्ष्यामि शृणु तत्वदः युवाभ्यां पीडिता देवास् सर्वे विष्णुमुपागताः ऊचुस्ते देवदेवेशं स्तुत्वा भक्त्या समाहिताः जहिरावणमक्षोभ्यं देवत्रैलोक्यकण्टकं मानुषेण मृतिस्तस्य कल्पिता ब्रह्मणा पुरा अतस्त्वं मानुषो जहिरावणकण्डकं तदेत्याहमः विष्णुसत्यसङ्कल्प ईश्वरः जातो रघुकुले देवो राम इत्यभिविश्रुतः सह निष्यदिवः सर्वा नित्युक्त्वा प्रययौ मुनिः अदो जानीहि रामं त्वं परं ब्रह्मसनातनं त्यज वैरं भज स्वाद्य मायामानुषविग्रहं भजतो भक्तिभावेन प्रसीदति रघोत्तमः भक्तिर्जनित्रीज्ञानस्य भक्तिर्मोक्षप्रदायिनी भक्तिहीनेन यत्किञ्चित्कृतं सर्वमसत्समम् अवतारा सुबहवो विष्णोर्लीलानुकारिणः तेषां सहस्रसदृशो रामो रामं भजन्ति मनसा वचसा निशम् अनायासेन संसारं तीर्त्वा यान्ति हरेः पदं ये राममेव सतदं भुवि शुद्धसत्त्वा ध्यायन्ति तस्य चरितानि पठन्ति सन्तः मुक्तास्त एव भवभोगमहाहि पाशाय् सीतापदे पदमनन्दसुखं प्रयान्ति इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे युद्धकाण्डे सप्तमः सर्गः